नारायणीयं दशकं सिक्स्टि नैन् मीटर् कुसुममञ्जरी केशपाश्यधृतपिञ्चिका विदधि सञ्चलन्मकरकुण्डलम् आरजालवनमालिका ललितमङ्गरागखनसौरभं पीतचेलधृतकाञ्चि काञ्चिदमुदंजदंशु मणिनूपुरं रासकेलिपरिभूषितं तव हिरूपमीश कलयामहे कलिद तावदेवकृतमण्डले कलितकञ्जुलीकुचमण्डले गण्डलोलमणिकुण्डले युवदिमण्डलेध परिमण्डले अन्धरा सकलसुन्दरी युगलमिन्दिरारमणसञ्चरन्मञ्जुलां तदनु रासकेलि मयि कञ्चनाभ समुपादथाः वासुदेव तव भासमानमिह रासकेलिरससौरभं दूरतोऽपि खलु नारदागदिदमाकलय्य कुतुकाकुलाः वेषभूषणविलासपेशलविलासिनीशतसमावृता नाकदो युगपदागदावियदिवेकतोऽध सुरमण्डली वेणुनादकृदतानदानकलगानराग मनोहरं। गदियोजनालोभनीयमृदुपादपादकृदतालमेलनमनोहरं पाणिसङ्कुणिदकङ्कणञ्जमुहुरं स लम्बितकराम्बुजं श्रोणिबिम्बचलदम्बरं भजदरासकेलिरसडम्बरं श्रद्धया विरचितानुगानकृततारतार मधुरस्वरे नर्तनेधलिताङ्गहार लुलिताङ्गहार मणिभूषणे सम्मदेन कृतपुष्पवर्षमलमुन्मिषद्दिविषदाङ्कुलं चिन्मये त्वयि निलीयमानमिव समुमोह सवधूकुलम् स्विन्न सन्नतनुवल्लरी तदनु कापि नाम पशुपाङ्गना कान्दमं समवलम्बदे स्म तव तान्दिपारमुकुलेक्षणा काजिदाचलितकुन्तलानव नवसौरभं वञ्चनेन तव सञ्जुचुम्बभुजमञ्जितोरु पुलकाङ्गुरं कापि गण्डभुवि सन्निधाय निजगण्डमाकुलितकुण्डलं पुण्यपूरनिधिरन्ववाप तव पूगचर्विदरसामृदम् इन्दिराविहृदिमन्दिरं भुवनसुन्दरं हि नडनान्तरे त्वामवाप्य दधुरङ्गनाक्किमुनः सम्मदोन्मद दशान्तरं गानमीशविरदं क्रमेणखिलवाद्यमेलनमुपारदं ब्रह्मसम्मदरसाकुलास् सदसि केवलं न नृदुरङ्गनाः नाविदन्नपि ना नीविकां किमपि कुन्दलीमपि च कञ्चुलीं ज्योतिषामपि कदम्बकं दिवि विलम्बिदं किमपरं ब्रुवे मोदसीं विलाप्य विहृदिं समाप्य च ततो विभो केलि समृदिदनिर्मलाङ्गनवकर्मलेश सुभगात्मनां मन्मथा सहनचेदसां पशुपयोषितां सुकृतचोदिदस्तावदाकलिद मूर्तिरा दधिध मारवीरपरमोत्सवान् केलिभेद लोलितारदिलाबलास्वरमीश नु सूरजापयसी चारुनाम विहृति व्यहा कानीज विसारी शीतल किशोरनोहरे सून सौरभमे विलेिध विलासिनी शतविमोहनं कामिनीरिधिः यामिनीषु खलु कामनीयकनिधे भवान् पूर्णसम्मदरसर्णवं कमपि योगिगम्यमनुभावयन् ब्रह्मशङ्करमुखानपीह पशुपाङ्गनासु बहुमानयन् भक्तलोक गमनीयरूप कमनीयकृष्ण परिपाहि मां सर्वत्र गोविन्दनाम सङ्कीर्तनं गोविन्द गोविन्द